श्रीमद्भागवत् महापुराणं नवमस्कन्धचतुर्थोऽध्यायः प्रतिनन्द्य सद्याञ्चां कर्तुमावश्यकं गतः निममज्यं बृहध्यायन् कालिन्दीसले शुभे मुहूर्तार्धावशिष्टायां दादश्यां प्रति चिन्तयामास धर्मज्ञोद्विजैस्तद्धर्मसङ्कटे ब्राह्मणातिक्रमे दोषो द्वादश्यां पदपारणे यद्यत्त्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशे केवले नाथ करिष्येवतपारणं प्राहुरभ्यं क्षणं विभ्राह्यसितं नाशितं च तन् इत्यपप्राशिराचरसि चिन्तयन् मनसाच्युतम् प्रत्यचष्ट कुरु श्रेष्ठ द्विजागमनमेव स दुर्वासायमुनाकुलात्कृतावश्यक आगतः राज्ञाभिनन्दितस्तस्य बुभुधे चेष्टितं धिया मन्युना प्रतिलद्गात्रो भृगुटीकुटिलाननः बुभुक्षितस्य सुतरां कृताञ्जलिमभाषत अहो अस्य अनुशंसस्य श्रियोन्मत्तस्य पश्यत् धर्मव्रतिक्रमं विष्णो अभक्तस्य एषमानिरः यो मावतिथिं मायातमातिथ्येन निमन्त्रितम् अदत्त्वा भुङ्मास्तस्य सद्यस्ते दर्शये फलम् एवं ब्रुमाणवत्कृत्य जटाम् रोष विदीपितः तया स निर्ममेतस्मै कृत्यां कालालोपमां तामापतन्तीं जलतीम् असि हस्तां पदा भुवं वेपयन्तीं समद्विक्ष न चालपदानृपः प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मनां ददाहकृत्यां तां चक्रं क्रुद्धाहि म्युपावकः तद्भिद्रवद्विन्दुद्वीक्ष्य स्वप्रयासं च निष्फलं दुर्वासा दु द्रुवेभिक्षुप्राणपरीप्सयां तवन्वधावन् भगवद्रथाङ्गं दावाग्निरुद्धो च शिखो यथाहिं तथानुशक्तं निरीक्षमाणो गुहां प्रससारमेरो दितो न बक्षां विवरान् सुमुद्रान् लोकान्सपालांसि दिवं गत यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श अलब्धनाथ सतं यदा कुतश्चेत् सन्तस्तचित्तोरणमेषमाळ देवं विरिञ्चं शमगाद्विधात स्त्राहां श्राह्यात्मयो ले ब्रह्मोवाच सानं मदीयं सह विश्वमेतत्क्रीडावशाले दुपरार्धसङ्गे भ्रूभङ्गमात्रेण हि सन्धि दक्षोकारात्मनो यस्य तिरो भविष्यति अहं भवो दक्ष भृगुप्रधाना प्रदेशभूते ससुरे समुख्यां सर्वे वयं जन्यमं लोकहितं वहाम प्रत्याख्यातो विरिञ्चन विष्णुचक्रोपतापितः दुर्वासासरणं जातः सर्वं कैलासवासिनं श्रीरुद्रुवाच वयं न तातः प्रभुवामभुम्नि यस्मिन् परेण्येऽप्यजीवकोशा भवन्ति कालेन भवन्ति हीदृशा सहस्रसो यत्र वयं भ्रमावह अहं समत्कुमारश्च नारदो भगवानज कपिलोपान्तरतमो देवलो धर्म आश्रीः मरीचिरप्रमुखाश्चान्ये सिद्धेषां तारदर्शनाः विधां न वयं सर्वे जन्मायां माययामृताः तस्य विश्वे स्वरस्येदं सहस्रं दुर्विषहं भिन तमेव याहि या हि हरिस्तेशं विशन्विधास्यते तरो निरासो दुर्वाशापदं भगवतो ययौ दैकुण्ठाख्यं जदध्यास्ते श्रीनिवास श्रियास सन्दह्यमालोजितशस्त्रवह्निना तत्पादपूले पतित सवेपथो आहाच्युतानन्दसदृप्सितप्रभोक्तागसं मां वहीं अजानता ते परमानुभावं कृतं ममाघं भवत प्रियाणां विवेदस्यापचितिं विधातमुचेत यन्नाम्युदि ते नारकोऽपि भगवानुवाच अहं भक्तपराधीनोश स्वतन्त्र इव द्विज साधुरिम्भिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः नाहमात्मानमासासे मद्भक्ते साधिफिर्विनां श्रियं चात्यन्ति किं ब्रह्मण्येषां गतिरहं परां ये दारागारपुत्राप्तान् प्राणान् व्युत्तमिमं परं हित्वा मां शरणं जाताः कथं तां समुच्चये नै निर्बद्धहृदयाः साधवशवदर्शनाः वशीकुर्वन्ति मां भक्त्या संस्थसद्पतिं यथा मत्सेवया प्रतीतं च सा लोक्यादिचतुष्णयं नेक्षन्ति सेवया पूर्णा कुतोऽन्यतकालविद्रुतं साधु श्रियं मह्यं साधूनां श्रियं त्वहं मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि उपायं कथिष्यामि तव विप्रशृणुष्वन् अयं ध्यात्माभिचारस्ते यतस्तं जातु वै भवान् सहितं प्रहितं तेज प्रहरतु कुरुते शिवं तपोविद्या च विप्राणां निशेयशुकरै बुभे देव एव दुर्विनीतस्य कल्पते कर्तुरन्यथा ब्रह्मस्तद्गच्छ भद्रं ते नाभागतनयं नृपं क्षमापय महाभागं तत् शान्तिर्भविष्यति इति श्रीमद्भागवते महापुराणे परभंशां सहितायां चतुरसोऽध्यायः